यदग्ने ते शिवं रूपं एचते च ते सप्तहेतयः तेन नः आर्तान् वै शरणैषिणः त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोशुदेवा देव ऋषीनस्मान् बालकान् पालयस्व परेणास्मान् प्रेहि वैहव्यवाहा स्तम्भमित्र उवाच सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदम् जगत् त्वम् धारयसि भूतानि भुवनम् त्वम् बिभर्षि च त्वमग्निर्हव्यवाहस्त्वम् त्वमेव परमम् हविः मनीषिणस्त्वाम् जानन्ति बहुधा चैकधापि च सृष्ट्वा लोकाम् स्त्रीणिमान् हव्यवाह काले प्राप्ते पचसि पुनः त्वम् सर्वस्य भुवनस्य प्रसूतिः त्वमेवाग्ने भवसि पुनः प्रतिष्ठा द्रोण उवाच त्वमन्नभिर्भुक्त जगत्पते नित्यप्रवृद्धपतसि त्वयि सर्वम् प्रतिष्ठितम् सूर्यो भूत्वा रश्मिभिर्जात वेदो भूमेरम्भो विश्वानादाय पुनरुत्सृज्य दृष्ट्वा वृष्ट्या भावयसिक्रा त्वत्त एताः पुनः शुक्रा विरुधो हरितच्छदाः जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः इदम् वै सद्मतिग्मांशो वरुणस्य परायणम् शिवस्त्राता भवास्माकमास्मानद्य विनाशया पिङ्गाक्षलोहितग्रीव कृष्णवर्त्मन् हुताश प्रेहिस्मान् सागरस्य गृहाणि वा वैशम्पायनो जातवेद्रोणेन द्रोणमाह प्रतीतात्मा मन्दपाल प्रतिज्ञया अग्निर्वाच त्वया ईप्सितम् ते करिष्यामि न च ते विद्यते भयम् मन्दपालेन वै यूयम् मम पूर्वम् निवेदिताः वर्जयेः पुत्रकान् मह्यम् दहन् दावमिति स्म तस्य तद्वचनम् द्रोण त्वया यच्चेह उभयम् मे गरीयस्तु ब्रोहि किम् भ्रशम् प्रीतोऽस्मि भद्रम् ते ब्रह्म स्तोत्रेण सत्तमा द्रोणवाच इमे मार्जारका शुक्रा नित्यमुद्वेजयन्ति नः एतान् कुरुष्व दग्धांस्त्वम् हुताश न बान्धवान् वैशम्पायन तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्दकान् ददाह खाण्डवम् दावम् समिद्धो जन इति श्रीमहाभारते आदिपर्वणि मयदर्शनपर्वणि शार्गकोपाख्याने एकत्रिंशदधिकद्विशततमोऽध्यायः